शुक्लाम् बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये वागीशाद्यासु मनसः सर्वार्थानामुपक्रमे यन्नत्वा कृतकृत्यामामि गजाननम् दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालाम् हस्तेनैकेन पद्मंसितमपि च शुकम् पुस्तकम् चापरेण भासा कुन्देन्दुशङ्ख स्फटिकमणिनिभा भासमाना समाना, समाना। सा मे निवसतु वदने सर्वदा सुप्रसन्ना गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात् परम् ब्रह्म तस्मै श्रीगुरवे नमः कूजन्तम् राम रामेति मधुरम् मधुराक्षरम् आरुह्य कविता शाखाम् वन्दे वाल्मीकिकोकिलम् वाल्मीकेर्मुनि सिंहस्य कविता वनचारिणः शृण्वन् रामकथानादम् को न याति पराम् गतिम् यः पिबन् सततम् रामचरितामृतसागरम् अतृप्तस्तम् मुनिम् वन्दे प्राचेत समकल्मषम् गोष्पदीकृतवाराशिम् वशकीकृत राक्षसम् रामायण महामाला रत्नम् वन्दे निलात्मजम् अञ्जनानन्दनम् वीरम् जानकी शोक नाशनम् वन्दे लङ्का भयङ्करम् उल्लङ्घ्य सिन्धोः सलिलम् सलीलम् यः आदायते तेनैव ददाह लङ्काम् नमामितम् प्राञ्जलिराञ्जनेयम् आञ्जनेयमतिपाटलाननम् काञ्चनाद्रिकमनीय विग्रहम् भावयामि पवमान यत्रयत्र यत्र यत्र ष्पवारि परिपूर्णलोचनम् मारुतिम् न मत मनोजवम् मारुत तुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् मातात्मजम् वानर यूथ मुख्यम् श्रीरामदूतम् शिरसा नमामि यः कर्णाञ्जलि सम्पुटैरह रहः सम्यक् वाल्मीकेर्वदनारविन्दगलितं गलितम् रामायणाख्यम् मधु जन्म व्याधिजरा विपत्ति मरणैरत्यन्त सोपद्रवम् संसारम् गच्छति पुमान् विष्णोः पदम् शाश्वतम् तदुपगत समास रघुवर मुनिप्रणीतं मुनि प्रणीतम् दश शिरसश्च वधम् निशामयध्वम् वाल्मीकिगिरिसम्भूता रामसागरगामिनी पुनः तु भुवनम् पुण्या रामायण महानदी श्लोकसारसमाकीर्णम् रामायणार्णवम्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 नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः